झम् पर्वदेश्रजानाम्भ्योऽसम्भृतान् धत्तारः अस्मग्स्ते क्षुदमुम् देशकृच्छ समुद्रस्य त्वावाजाग्ने परिम् गजामसिको अस्मद्भर्गम् शिवो भव हिमस्य द्वाचरायुणाग्ने परिव्यजयामसि आवको अस्मभ्यगम् शिवो भव उभस्मन्नपवेदसेवत्तरन्नदीष्वा अग्ने वित्तमपामसि मण्डो गीताभिरागहिषयमण्डो यज्ञम् आवकवर्णकम् शिवम् कृधि आवक आचितयम् जागृपा क्षामनृचवृषसोनभानुना तोन्नजा भे दशस्य नूरणो घृणे नदृषाणो अजरः अग्ने पावकरोतिषामिन्द्रजा देवजिह्वया आदेवानुवक्षिजक्षि चावकदिवोऽग्ने देवागुम् इहावः उपयज्ञगुम् हविश्चनः पपामिदन्यजनगुम् समुद्रस्य निवेशनम् अन्यन्ते अस्मत्तपन्तु हेतजः पावको अस्मभ्यगम् शिवो भव नमस्ते हरषे सोतिषे नमस्ते अस्मत्सुषे अन्यन्ते अस्मत्तपन्तु हेतजः पावको अस्मभ्यगुम् शिवो भव पिठदेवडप् सुषदेवत्सुपद्विदेवटे हे देवादेवानाः यज्ञिजा यज्ञिजा नागम् संवत्सरेण मुपभागमासते बहुधातो हविषो यज्ञे अस्मिन् दुःखम् ब्रह्मदेवानपृथिविजाधिष्णुषो रामदा अपानदा विजानदाश्च क्षुब्दावच्छोदावरिबोधाः हन्यन्ते अस्मत्तबन्ध हेतयः पापको अस्मभ्यगम् शिवो भव अग्निस्विग्नेन शोचशाजगम् सर्वेष्वन्यत्रिणम् अग्निर्नो भगुम् स चे रजिम् सैनानीकेन च विदत्रो अस्मे नष्टादेवागम् आयतिष्ठस्वस्ति हरब्धो गोप उत विश्वाभुवना निजुःपदृशिरहोता दृषसादापिता नः सा द्रविणमित्समानः परमत्सदो वरहाविवेश विश्वकर्मा मनसा यद्विहाय धाता विधाता परमोदसन्दृगे तेषामिष्टानि समिषा मदन्ति यत्र सर्षेन् परमेकमाहो यो नः पिता विधाता यो नः यो देवानामझाधे कदेवतकुम् संरश्नम् भुवनायम् जन्याम् द्रविनगुम् समस्मानुषजः पूर्वे जनितारो न भूना असोर्तासोऽर्ता रजसोऽभिमाने दे भूतानि समगृम् बन्निमानि न तम् युधादम् जान्यज्युष्माकमम् तदम् भवाति हारेण प्रावृता जल्प्या चासुपमुक्स शासश्चरन्ति परो दिवा परदेवजा परो देवेऽभिरसुरेर्गुहायत् कैगस्विद्गर्भम् रथमं दध्वा भो यत्र देवाः समगच्छन्त विश्वेः तमेद्गर्भम् रथमं दध्वा भो यत्र देवाः समगच्छन्त विश्वेः मर्पितम् यस्मिन्मिदम् विश्वम् भुवनमधिश्रितम् विश्वकर्माशीनिष्टदेव आदिद्गम् सर्वो अभवद्वितीयः श्रीयः पिता जनदौषधीनामपाम् गर्भम् यदधात् पुरुद्रा चक्षुषः पिता मनसाधिथेरोघृतमेने अजनम् नन्नमाने यदे अदतृकम् हन्तपोर्व आदिद्यावासिताम् विश्वतश्चक्षुरुत विश्वतमुख विश्वतहस्तेद्यावासिवेदनयम् देवजयकः नमारम्भणम् कथमत्सित्रिमासीत् यदे भोमिन् जनयम् विश्वकर्मा विद्यापोर्णाहम् महिला विश्वचक्षाः क्ष आसे वा पृथिवे नष्टक्षुः मनीषिणा मनसा वृच्छते सखेभ्युष्ठानः वाचस्वतिम् विश्वकर्माणमोतजे मनोजम् वाजे अद्याहुवेम समने हवनानि नोषदे विश्वसम्भो नवसे साधुकर्मा विश्वकर्मण हविषा वा विधानस्वलङ्गजस्व रनुवञ्जुषा नः मुह्यम् ध्वन्ये अभिरः सपत्नाभिहास्माकम् मघवा सूर्यस्तु विश्वकर्मण हर्षावर्धनेन प्राता रविन्द्रमकर्णालवध्याम् समनमन्तपूर्वे रजमुहरुजासत् समुद्राय वयुनाय सिन्धूनाम् पतजय नमः नलीनागुम् सर्वासाम् पित्रे जहुदा विश्वकर्मणे विश्वाहा सगम् सृज प्रजनेन च इन्द्रेमम् पतराम् कृ सजातानामसद्वशी समे नर्चसा सृज देवेभ्यो भागता असत् यस्य कुर्मो हरिग्रहे तमग्ने वर्धया त्वाम् तस्मै देवार्यब्रवन्नयम् च ब्रह्मणस्पतिः बुधु त्वा अग्ने भरन्तु चित्तिभिः समभव शिवतमः प्रतीको विभावसुः पञ्च दिशो देवे दे यज्ञ भवन्तु देवे लामतिम् दुर्मतिम् बाधमानाः राजस्पोषे राजस्पोषे अधिजज्ञो अस्थात् समिध्ये अज्ञान मा महानः मुक्थपत्रयज्ञो गृभे तस्तप्तम् घर्मम् परिगृह्यायजन्त ऊर्जा यद्यज्ञमशमम् तदेवा देव्याजधत्रे ज्योष्ट्रे देवश्री श्रीमनाः शतवजाः परिगृह्य देवायज्ञमाजन्य सूर्येश्व हरिकेशः पुरस्तात् समिता ज्योतिरुतजाकुम्भजस्रम् तस्य पुरुषा प्रसमञ्जातदेवः सम्पश्यन् गोपाः देवा देवेभ्य अध्वर्यन्त समित्रे समिता तुलेलो यज्ञो यत्र हरिजमे जगतः पाभका आशिषो नो दुषन्ता मध्य आस्ताब्लिवान् अन्तरिक्षम् स विश्वाचेरभिष्टेता पूर्वमपरम् च केतुम् उक्षा समुद्र अरुणः सुपर्णः पूर्वस्थजोनिम् विदुराश्मा विचक्रमे रजसः पाच्यन्तौ इन्द्रम् विश्वा अविवृथान् समुद्रज सङ्गिरः रथेतमगो रथेनाम् वाजानाकम् सत्पतिम् पतिम् देवागुम् आचवक्षद्यक्षदग्निर्देवो देवागुम् आचवक्षत् वाजस्य मा प्रसवे नोहादग्रहीत् अथा सपत्नागुम् इन्द्र मे निग्राभेणोऽकः ग्राभम् च निग्राहम् च ब्रह्म देवा अभिवृधन् अथा सपत्नानिन्द्राज्ञीमेव शोचीनान्यस्यताम् आशुष्युषामो मृषतो नो खना घनः क्षोपनश्चर्षणीनाम् अजगत्साकमिन्द्रः सङ्क्रन्दनेन निमिषेन जिष्णुना युत्कालेण दुश्चनेन विष्णुना तदिन्द्रेण जगदत्सहद्धयसो तदविषु हस्तेन वृष्णाः सृषङ्गादयुध इन्द्रो गणेन रक्षोहामित्राम् अपबाधमानः कमणो युधादन्नस्माकमेद्धिता रथानाम् गोत्रभिदम् गोविदम् वज्रवाहोन्दयम् प्रमणम् दमोजसा इमगम् स जाता अनवेदय भ्रमिङ्गम् सखाजो न सगुं रभध्वम् मानो दाजो बलविज्ञागस्थविरः प्रवेरः सहस्वाजेरोयो वीरः शतमन्ुरिन्द्रः कृतनाशास्माकुंसेना दक्षिणालज्ञः पुरजयतु सोमः देवसेनानामभिन्ददीनाम् जयन् दीनाम् मरुत्वा जन्द्वग्रे मुङ्गलस्य कृष्णो वर्णस्य राज्ञा आदित्यानाम् मरुताकंशर्ध्वमुग्रम् महामनसाम् भवनशोषो देवानाम् जयतामुदस्थात् अस्माकमिन्द्रः समृतेषेष्वस्माक्यायष वस्ता जयन्तु अस्माकम् वीला उत्तरे भवन्तस्मानु देवा अवताहवेषु उद्धुथान्युत्सत्त्वनाम् उद्वद्रहन्वाजिनाम् वाजिनान्युद्रथानाम् जगदा मे दुघोषः प्रेदजगदानरस्थिरावः सन्द्हवः इन्द्रावः शर्म यच्छत्त्वना शिष्या यथा सथा अवसृष्टा परापदशरम् जय ब्रह्म षान् कञ्चनोच्छुषः सोमस्त्वा राजाः यत्र वाणाः सम्पदन्ति कुमारामि शिखादिव इन्द्रो नस्तत्र वद्रहा विश्वाः शर्म यच्छतु प्राचे मनप्रतिसंलेहि विद्वान् अग्नेरग्ने पुरो अग्निर्भवेह विश्वा आशा विनो विभाष्योर्जन्नपदे चतुष्पदे क्रमध्वमण्डिनाराकमुक्षकम् हस्तेषु बिभ्रतः पृष्ठकम् सुबर्गत्वा मिश्रा देवेऽभिराध्वम् पृथिव्या अहमुदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् दिवो रागस्य पृष्ठात् सुवर्ज्योतिरगामहम् सुवर्यम् ना ना ना तो नापेक्षन्त्यागुम् रोहन्ति रोदसी यज्ञे विश्वतो सुविद्वागुम् सोपिते निरे प्रेः प्रथमो देवजताम् चक्षुर्देवाना भुतमर्त्यानाम् यक्षमाणा भृगभिः सजोषाः सुवर्यम् भृगजमाना समनसा विरूपे धा भजेते शिशुमेकुम् वा क्षामा रुक्मो अन्तर्विभाज देवा अग्निम् धारयन्त्र अग्ने सहस्राक्षशतमोऽर्धम् सतन्ते प्राणाः सहस्रममाणाः त्वम् साहस्रस्य राजदीर्षे तस्मै ते स्पर्णासि करुत्मासेतपृष्ठे पृथुविजासान्तोतिषादिवमुत्तशमुद्रिकुम्भाजुमानः सुप्रतीुत्तरस्मिन् विश्वेदे चेतताग्ने देतिः पुरो नोजस्रजा सौर्म्यायमिष्ठ त्वागुंसश्वम् तपुवयम् दिवाजाः विधे मते परमे जन्मन्नग्ने विधयमस्तो भैरवरे सधश्चे यस्माद्योने रुदारिधाय चेतम् नत्वे हमेगुम् हिजुहुरे समिध्ये तागुंसविदुर्वरेऽन्यस्त चित्रा माहम् वृणे सुमतिम् विश्वजन्याम् यामस्य गण्डो अधुहनागुम्सहस्रधाराम् वजसा महीङ्गाम् सप्तदे अग्ने समिधः सप्त जिह्वाः सप्तऋषयः सप्तधामप्लुजानि सप्त हो त्वाः सप्तधा त्वा यजन्ति सप्तजो नेवाणस्वाघृतेन ईद्रिम् च अन्याद्रिम् चैताद्रिम् च प्रतिद्रिम् च मितश्च सम्मितश्च सभराः शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्वागिश्च सत्यश्च तपाश्चात्यगुम्भाः रचित्तस रचिच्चसे रचित्य सुषेणश्चान्तमित्रश्च दूरेकमित्रश्च गणः कृतश्च सब्दश्च भ्रुवश्च धरुणश्च धर्ता च विधर्ता च विधारजः ये दृक्षा सदेतादृक्षा स उष्णः सदृक्षा सहृदिसदृक्षा सवेतना मितासश्च संमितासश्च न ऊतजे सफलसो मरुतो यज्ञे अस्मिन् इन्द्रम् दैवेर्विशो मरुतोऽनुवर्त्मानो यथेन्द्रम् दैवेर्विशो मरुतोऽनुवर्त्मान एव मिमम् यजमानम् दैवेश्च विशो मानुषेश्चानुवर्त्मानो भवन्तु जीवोदस्यैव भवति प्रतीकम् यद्भर्मी जाति समदामुपस्थेः अनाविध्वजादनुवाचजत्वनु महिमापि पर्तु गाधन्मना चिन्तदे गा मथन्मना दीव्राः समदो जम धनः शत्रोरपकामम् कृणो तिथन्मना सर्वाः प्रतिशोचयेम भक्ष्यन्ति वेदागनेकम् दि कर्णम् ऋजगम् ते वर्षस्वजाना योषे वशङ् तथा जिथन्वञ्च इजम् समने पारयन्ति आचरन्ति समने पजोषा शत्रूणे व्यध्यदागम् संविधाने आज्ञे इमे विस्फुरन्ति अमित्राणि बाह्लीनाम् पिता बहुरस्य पुत्रस्य कृणाति समनामगत्य विशुतिः सङ्गाः पुतनाश्च सर्वाः तिष्ठे नो जयति प्रसूतः रचयतिष्ठन् नयति वाजिनः पुरो यत्र यत्र कामयते सुषा महेशो नाम महिमानं पनाय दमनः पश्चादनु यच्छन्ति रश्मयः ये वुरान् घोषान् कृण्वते वृषपाणजो श्वालेभिः सह वाजयन्तः अवत्रामन्तः प्रपदे रमित्राः क्षणम् विष रोगुम् रणपजयन्तः रथवाहनगुम् हविरस्य नामजद्रायुथन्निहितमस्य वर्मा ताद्रारथमुपशग्मगुं सदेम स्वादुषगुंसदः पितलो वजोधाः कृश्रे श्रुतः शक्ते मन्दो गभीराः चित्रसेना इशुपला अवृद्ध्याः सतो वीरा भुरवो भ्रातसाः ब्राह्मणा सह पितरः सोन्यास शिवेनो ज्ञावामिहसा भूषाणः पादृता वृथो रक्षा मा किम्भो अघसगुम् सजे सदा सुवर्णम् वस्ते मृगो अस्यादम् तो गोभिः सन्नद्धापजति प्रसूता yeah. यत्र नरः सञ्च विच द्रवन्ति तत्र स्मभ्यमिषवः शर्म जगुंसन् yeah. परिवृन्थिनोऽस्मा भवतु नस्तनोः सोमाधिब्रवीतु नोदितिः शर्म यच्छतु आजङ्घन्ति सान्वेम् अश्वाजनिप्रचयतसोश्वान् समत्सु चोदय भोगैः ध्याजा हेतुम् परिबाधमानः हस्तघ्ना विश्वा वरिणानि विद्वान् पुमान् पुमापुंसम् परिपादु विश्वदः परस्वदेव भोजा अस्मत्सखा प्रतरण सुवीरः गोभिः सन्नद्धो असिडजस्वा नेकम् मित्रस्य गर्भो वरुणस्य नाभिः सेमान्नो हव्यजाञ्जुषाणो देवन सम्प्रति हविजा कृपाया उपश्वासन पृथिवे मुदजाम् पुरुत्रा ते मनुताम् विष्टितम् जगतम् स तुम् दुभे सजोरिन्द्रेण देवैर्दुराद्यो अपसेधसत्रूमेता बाधमानः अपब्रोसदुम् दुभे दुक्षुनागुम् इत इन्द्रस्य मुष्टिरसि वीरजस्वा यदक्रन्दः प्रथमम् जायमान पूज्या समुद्रा तु तापुरेशात् श्येनस्य पक्षा हरिणस्य बाहु उपस्तु महि जातम् ते अर्वन् येन दत्तम् धृतये न माजुनन्द्रयेणम् रथमो अभ्यतिष्ठत् गन्धर्वो अस्य न शमगृभ्रात् असि यमो अस्यादित्यो अर्वन्न सिद्धृतो गुह्येन आसि सोमेन समज विवृक्त आहुस्ते त्रेनि दिवि बन्धनानि त्रीणि द आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे उदेव मे वरुणश्चत्रात आहुः परमम् चरित्रम् हिमादेवादिन्नपमार्जनानि मा अत्रादे भद्रादश न अपश्यमितस्य अभिरक्षन्ति गोपाः आत्मानम् ते मनसा राजजानामवो दिवा पतयन्तम् पतङ्गम् शिरो अपश्यम् वसिभिः सुगेभिररेणुभिर्जेहमानम् पदत्रि अत्रादे रूपमुत्तममपश्यन्ति गेशमाणमिष आपदे गोः यदा एमर्थो अनुभोगमानडाजिग्रसिष्ठवोषधीरजेगः अनुद्वारसो अनुमलजो अर्वण् अनुगावोऽनुभगः कनीनाम् अनुव्राता सस्तव सख्यमे जुरनु देवा ममिरे वीर्यन्ते हिरण्यशृङ्गो यो अस्य पादा मनोज वा अपर इन्द्र प्रथमो अध्यतिष्ठत् ध्यमा सस्यगम् शोरणासो दिव्या सो अत्यावश्रेणि शोयतम् तैकदाक्षिषुर्दिव्यमध्यम स्वाहा चित्तम् वादति मध्वेवान् नव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु दर्पुराणाचरन्तिगाच्छसनम् वाज्यर्वादे च मनसादेध्यानः अधः पुरोऽणी गतेनाभिरस्यानुपश्चात्यवयोरम् तिरेभाः उपप्रागाः परमे यत्सतस्थमर्गुम् अध्यापितरम् आदरम् च अद्या देवाञ्जुष्टतमाहि गम्या साशास्ते दासुषे वार्याणि मानामित्रोपरमायुजमायुरन्तर्भुक्षा मरुतः परिक्षन् यद्वाजिनो देवजातस्त सप्तेः प्रवक्ष्यामो विदधे वीर्याणि यह्निर्ण्यचारे क्णसा प्रावृतस्य राजिङ्गभेदाम् कतो नयन्ति सुप्रागजो मेम् यद्विश्वरूप इन्द्र पोष्णोऽप्येतिपाथः येषच्छ पुरो अश्वेन वाजिन पोष्णो भागो निजतेश्व अभिप्रियज्यत्वरोडासमर्वता त्वश्चेदेन गंसौ श्रमसाग चिन्वति यद्धमिश्रमृतसो देवजा नर्मानुषाः पर्ययन्ति अत्रागोष्णः प्रथमो भागजयत् यज्ञम् देवेभ्यः प्रतिवेदयन्मजः होदाुरावजा अग्निमिम्भो ग्रामग्राभवदसभ्यस्तासु विप्रः तेन यज्ञेन स्वरम् कृतेन स्पष्टेन भक्षणावृणध्वम् यूपो पुरस्कारुदये यूपवाहाश्च शाल्ये अश्वपाय दक्षति ये चार्वते पचनकुम् सम्फलन्तुतो तेषामभिगोऽर्प्यन्नयन्वतु ते उपप्रागात् सुमन्मेधाय मन्मदेवानामाश उपवीतपृष्ठः अन्वेन विप्रार्षयो मदन्ति देवानाम् पुष्टे च यद्वादिनो दामसन्दानपर्वतोशनारधुरस्य यद्वाखास्य प्रभृतमास्येतृणुम् सर्वाताते अपि देवेष्वस्तु यदश्वस्य क्रविशो मक्षिकाश यद्वा स्वरौ स्वथितौ रिक्तमस्तिर्यम् नखेषु सर्वाताते अपि देवेष्वस्तु यो मध्यमृदरस्य भवातिज आमस्य क्रविशो गन्धो अस्ति सुकृदादच्छमितारः कृण्वन्तु तमेधकम् शतपाकम् पचन्तु यत्ते गात्रादग्निना पच्यमानादभिशूलन्निह तस्यावधावति ये वाचिनम् परिपश्यन्ति पक्वै यदि मातुः सहरेति ये सार्वतो माघम् सिक्षामुपासदवतो देषामधिगोतिर्नयन्वतु क्षणम् मागस्पजन्याया पात्राणि योष्ण आसेचनानि गोष्मण्या पिधाना चरूणा मङ्गा सूणा परिपोषम् च पपौ यच्च घासिम् जघासर्वाता ते अपि देवेश्वस्तु महात्वाग्निर्ध्वनिधो मलम् धर्मोखाभ्राजम् जिविक्तजग्भिः इष्टम् वेदमधिगो त्वम् वशकृतम् तम् देवासकृतिगृभ्रम् च स्वम् यदा श्वाच वासपुरवस्तृणम् तथे वासञ्जाहिरण्यान्यस्मै सन्दानमरणन्तम् पड्बीषम् वृजा देवेश्वाजामयन्ति यद्धे सा दे महसा सुकृतस्य वार्ष्णिजा वा कषजा वा तृतोषो अध्वरे सर्वदा देव ब्रह्मणासो दजामि चतुरस्विंशद्वाजिनो देवबन्धोर्वङ्केरश्वस्य स्वधितिः समेति रक्षिद्वागात्रावजुनाकृणोदपरुष्परुगणुष्याभिशस्ता एकस्वष्टुरस्वस्यापि शस्ताद्वादम् तारा भवतः गाते गात्राणाम् ऋतुसा कृणो मितापिण्डानाम् ऋजुहोऽग्नौ मा त्वा तव आत्माभियम् तम् मा स्वनुवहातिष्ठिपत्ते मा ते ग्रस्ताधिहाय छिद्रा गात्रान्यसि नामि चूकः न वाकुवेदन् म्रियसे मलिष्यसि देवागुङ्किदेशिभिस्तुगेभिः दे फलीते दे गञ्जा बृषदे अभूतामुपास्ताद्वाजीधुरिरास तस्य सुकव्यजे स्वश्रियम् पुंसत् पुत्रागम् उत विश्वापुषकुम् रजिम् आगास्त्वन्नो अदिदेः कृणादुक्षत्रन्नो अश्ववनतागुम् हविष्मान् भो